गणेशपुराणम् उपासनाखण्डम् अध्यायं 27 व्यास उवाच क उपायस्तु मुनिना विश्वामित्रेण धीमता कृपावतादुभीमाय कथितस्तं वदस्वमी मन्मनोमोहपटलं मृत्योरिव विनिसृतं तत् कथा मृतपानेन पिता महमृता यथा ब्रह्मोवाच भीमाय कथितस्तेन य उपाय उपायशृणुष्वतं एकाक्षरं महामन्त्रं भीमाया कथयन्मुनि पाराश्चर्यमुनिश्रेष्ठ कथयामि शृणुष्वतम् उवाच तं प्रसन्नात्मा विश्वामित्रसुधर्मविद विश्वामित्र, विश्वामित्र उवाच अनेनाराधय विभुं दैवतं गणनायकं अनुष्ठानं कुरुष्व प्रासादे दक्षनिर्मिते विनायक प्रसन्नस्ते सर्वान् कामान् प्रदास्यति धर्ममर्धं तथा कामं मोक्षमन्यदपेक्षितं गच्छ वा स्वपुरं भीम चिन्तां कामपि मा कुरु ब्रह्मो वाच तदा तेन तं प्रणम्य ययौ नृपः सपत्नीको ददर्शाधपत्तनं स्वं जहर्ष च अमात्यौ सेनया सार्धं नागरैरीयतुर्नृपम् आलिलिङ्गुर्नृपं के जिन्नेमुर्दूरात्तथाके प्रविवेशपुरं राजा सर्वैः साकं ध्वजालिमत सिक् मार्गं चारुगन्धं नानां वादित्रशब्दितम् ऊजुः परस्परं लोकाः पुरीयं शोभतेऽधुना नारीपदिं प्राप्य यथान्धो वापि सदृशम् इति शृण्वन्नयानस्तस्तथा सा चारुहासिनी वस्त्रालङ्कारशोभाढ्यौ स्तूयमानौ मुदान्वितौ उभौ विवशदूरम्यम् पुरम् नानर्द्धिसङ्कुलम् विसृज्य तौ वस्त्रालङ्कारमौक्तिकैः ताम्बूलैस्तेषु या तेषु भवनं स्वमगच्छतां ततः शुभे राजा दक्षप्रासादमागतं यत् कौण्डिन्यपुरे कारिपुरा दक्षेण उपवासपरो नित्यं तन्मन्त्रमवलोडयन् भोजने शयने याने वचने श्वसनेऽपि च तमेव चिन्तयन् नित्यमनन्यमनसा नृपः जले स्तले नभो मार्गे स्वर्गे देवे नरे द्रुमे भक्ष्ये पेये नृपो मनुत्तमं यम यम पश्यदितं तं नौधि लिंगन नगरे तं जना सर्वे पिशा च इति मे निरे तदो विनायकोऽभ्येत्य धृत्वा पाणितले नृपम् नुपं आहतं नृपमुक्तोऽसि किं वाञ्छसि वदस्व तमुवाच नृपो नान्यं जाने त्वच्चरणाम्बुजाद तदो विनाय कः प्राह पुत्रस्ते चारुदर्शनः भवितामत्प्रसादेन गुणीस्वर्णतनुर्नृप भवनं देवत् द्विजपूजापरो भव स गत्वा भवनं राजा तच्चकार तथैव च देवानां ब्राह्मणानां च पूजनं तर्पणं तथा अकरोत् सर्वभावेन गणेशः प्रीयतामिति अल्पेनैव दुकालेन पुत्रस्तस्या भव ददौ दान्यनेकानि पुत्रजन्मनिमित्तदः रुक्माङ्गदे नामास्य चक्रे द्विजवरोदितं नित्यं शुक्लपक्षे यथा शशी चकारगुरुसात्तं सा शिक्षार्थं नृपतिः स च श्रवणमात्रेण जग्राह गुरुणोदितं सर्वविद्यानिधानेन दत्तं यत्कपिलेन च सोऽपि विद्यानिधिरभूत् गजकर्ण इवापरः रुक्माङ्गदोदिबलवान् सर्वशास्त्रविशारदः तस्मै पट्टाभिषेकं स चकारगुणराशये ददौ च द्विजमुख्येभ्यो दासोरत्नधनानि च ततोऽधिकां महाभक्तिं सोपि चक्रे विनायके जजापैकाक्षरं मन्त्रं पितुप्राप्तं दिने दिने एकस्मिन् दिवसेरण्यं युवराजा विवेशः मृगयां जखान नवयान मृगान व्यजरद्भोस्ति जखाननवयान्मृगान् अधिश्रान्तो ददर्शाधमुनेः कस्यचिदाश्रमं नानावृक्षलताजालं त्यक् वैरमृगान्वितं यदि श्रीगणेशपुराणे उपासनाखण्डे रुक्माङ्गदाभिषेकवर्णनं नाम सप्तविंशोऽध्यायः ॐ